श्रीमद्भागवत् महापुराणं दशमस्कन्ध पञ्चाशीतितमोऽध्यायः ऋषिर्वाच एवं सञ्चोदितो मात्रा रामकृष्णस्य भारत सुतलं संविशन्तुर्योगमायामुपासितौ तस्मिन् प्रवेष्टावुपलभ्यतेरा विश्वात्मदैवं सुतरां तथात्मनः तद्दर्शनाह्लादपरिप्लुताशयः सद्ये समुद्धायननामसान्वयः तयो समानीयवरासनं मुदां निविष्टयोस्तत्र महात्मनो तयोः दधारपादावनिज्य तज्जलं समिद्ध आब्रह्म पुनर्जदम्बुः समर्हयामाससतौ विभूतिभिः महार्षवस्त्राभरणानुलेपनैः ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रण्महो प्रेम विभिन्नया धियाम् उवाच आनन्दजलाकुलेक्षण प्रहिष्टरो मालिपगद्गदाक्षरम् बलिर्वाच नमोऽनन्ताय बृहते नमः कृष्णाय वेदसे साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने दर्शनं वां धीं भूतानां दुष्प्रापं चापि दुर्लभम् रजस्तमस्वभावानां जन्मप्राप्तौ यदीक्षयाम् दैत्यदानो गन्धर्वा सिद्धविद्याध्रुचारणाः यक्षरक्षापि सा चाश्च भूतप्रमथनायकाः विशृद्धसत्त्वधाम्नद्धां त्वयि सहस्रशरीरिणी नित्यं निबद्धवैरास्ते वयं चान्ये च तादृशाः केचनो बद्धवैरेण भक्त्या केचन कामतः न तथा सत्त्वसंरब्धा सन्निकृष्टासुरादयः इति मित्थमिति प्रायस्तवियोगेश्वरेश्वर न विन्द्यपि योगेशां योगमायां कृतो वयं तन्न प्रसीदनिरपेक्षाभिमृगामत् पादारविन्दन्धीषणान्यगृहान्धकूपात् निष्क्रम्य विश्वशरणाङ्घ्रुपलब्धवृत्तिः शान्तो यथैकौत सर्वसुखैश्चरामे साध्यस्मानीति तव्येष निष्पापान् कुरु न प्रभो पुमान् यश्रद्धया ते शोदनाया विमुच्यते त्रीभगवानुवाच आसन्मरीचे षड्पुत्रा वरुणायाम् तस्मेन्तरे देवाकं जः सुरवीक्षसताम् जितुमुद्यतम् देना सुरी तेनासुरीमगनं ज्योनिमधूना वद्यकर्मणां हिरण्यकसिपोर्जाता नीतास्ते योगमाययां देवक्या उदरे जाता राजन् कंसविहंसिताः ता तच्छोचत्यात्मजां स्वास्तैवेध्या संसतेऽन्तिके इत एतां तृणेष्यामो मातृशोकापनुत्तये ततः शापाद् विनिर्मुक्ता लोकं यास्यन्ति विज्वराः नरोद्गीत परिष्पङ्ग पतङ्ग्रं भृघृणी षडिमे मत्प्रसादेन पुनर् यास्यन्ति सद्गतिम् इत्युक्त्वा तान् समादाय इन्द्रसेन पूजितौ पुनर्द्वारवतीमेत्य मातुः पुत्राणि कान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्तू नुस्तने परिस्पृज्याङ्कमारोप्य मृध्य जग्रदभीक्षणसन् अपायस्तनं प्रीता सूतस्पर्श परिप्लुता मोहिता माय विष्णो यया सृष्टि प्रवर्तते कृत्वामृतं प्रयस्तस्यापि तशेषं गदाभितः नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः ते नमस्कृत्य गोविन्दं देवकीं पितरं बलं मिषतां सर्वभूतानां ययुर्धामदिवौकशां तं दृष्ट्वा देवकी देवे मृतागमननिर्गमं मेने सुस्मिता मायां कृष्णस्य रचितां नृप एवंविधान्यद्भूतानि कृष्णस्य परमात्मनः विर्यानन्तवीर्यस्य सन्त्यनन्तानि भारत श्रुत्वाच य इदमनुश्णोति श्राव्ये मुरारे चरितं अमृतकीर्तेर्वर्णितं या सपुत्रये जगजगम् विदलं तद्भक्तसत्कर्णपूरम् भगवति कृतचित्तो यातदक्षेमधाम इति श्रीमद्भागवते महापुराणे पारंशां शयितायां दशमस्कन्धे उत्तरार्धे मृताग्रजानयनम्नां पञ्चाशीतितमोऽध्यायः